नमः शिवाय महन्यासमन्त्रपाठप्रारम्भः शिवाय नमः त्वा गणपतिगुंहवामहे कविम् कवीनामुपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पतहा नः शृण्वन् नोतिभिः सीधसाधनम् ॐ महागणपतये नमः अथ शिवाय नमः अथातः पञ्चाङ्गरुद्राणान्यासपूर्वकम् जपोमार्चनाभिषेकविधिम् व्याख्यास्यामः नमस्ते रुद्रमन्यव उतोतयिषवे नमः नमस्ते अस्तु धन्वणे बाहुभ्यामुत नमः यातैषुः शिवतमा शिवम् बभूव धनुः शिवाशरव्यायातवत यानो रुद्रमृडया कम् खङ्घम् घम् गम् यरलवशसहो ओ नमो भगवते रुद्राय पूर्वाङ्गरुद्राय नमः अपैलु मृत्युरमृतन्न आगन्वैव स्वतो नो अभयम् कृणोतु पर्णम् वनस्पतेरिवाभिनः शीयतागुम् रयिः स च तान्नः शचीपतिः झंझञ्झञ्झञ्झम् नमो भगवते रुद्राय दक्षिणाङ्गरुद्राय नमः निधनपतये नमः निधनपदान्तिकाय नमः ऊर्ध्वाय नमः ऊर्ध्वलिङ्गाय नमः हिरण्याय नमः हिरण्यलिङ्गाय नमः सुवर्णाय नमः सुवर्णलिङ्गाय नमः दिव्याय नमः दिव्यलिङ्गाय नमः भवाय नमः भवलिङ्गाय नमः शर्वाय नमः सर्वलिङ्गाय नमः शिवाय नमः शिवलिङ्गाय नमः ज्वलाय नमः ज्वलिङ्गाय नमः आत्माय नमः आत्मलिङ्गाय नमः परमाय नमः परमलिङ्गाय नमः एतत्सोमस्य सूर्यस्य सर्वलिङ्गग्स्थापयति पाणिमन्त्रम् पवित्रम् ठम्ठम् ठम् ढम् नम् यरलवषस सहो नमो भगवते रुद्राय पश्चिमाङ्गरुद्राय नमः यो रुद्रो अग्नौ यो अप्सुयवोषधीषु यो रुद्रो विश्वा भुवनाविवेश रुद्राय नमो अस्तु। तम् थम् थम् धम् नम् विरलवषस सहो ॐ नमो भगवते रुद्राय उत्तराङ्गरुद्राय नमः प्राणानाम् ग्रन्थिरसि रुद्रो मालिशान्तकः तेनान्नेनाप्यायस्व नमो रुद्राय विष्णवे मृत्युर्मे पाहि पम्फम्भम्भम् एरणवशससहो ओम् नमो भगवते रुद्राय ऊर्ध्वाङ्गरुद्राय नमः